अथ त्रयोदशः सर्गः रामप्रीतोऽस्मि भद्रन्ते परितुष्टोऽस्मि यन्माम् प्राप्तौ स्थः खेदो बाधते प्रचुरश्रमः व्यक्तमुत्कण्ठते वापि मैथिली जनकात्मजा एषा च सुकुमारी च खेदैश्च विमानिता ज्यदोषम् वनम् प्राप्ता भर्त्र स्नेहः प्रचोदिता यथैषा रमते राम इह सीता तथा कुरु दुष्करम् कृतवत्येषा वने त्वामभिगच्छति एषा हि प्रकृतिस्त्रीणामासृष्टे रघुनन्दना समस्तमनुरज्यन्ते विषमस्थम् त्यजन्ति च शतह्रदानाम् लोलत्वम् शस्त्राणाम् तीक्ष्णताम् तथा गरुडानिलयो शैघ्र्यमनुगच्छन्ति योषितः इयम् तु भवतो भार्या दोषैरेतैर्विवर्जिता श्लाघ्या च व्यपदेश्या च यथा देवीश्वरुन्धती अलङ्कृतोऽयम् देशश्च यत्र सौमित्रिणा सह वैदेह्याचानया रामवत्स्यसि त्वमरिन्दमा एवमुक्तस्तु मुनिना राघवः संयताञ्जलिः उवाच प्रश्रितम् वाक्यमृषिम् दीप्तमिवानलम् धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवः गुणैः स भ्रातृभार्यस्य गुरुर्नः परितुष्यति सोदकम् बहुकारनम् यत्राश्रमपदम् कृत्वा वसेयम् निरतः ततो ब्रवीन्मुनिः श्रुत्वा रामस्य भाषितम् ध्यात्वा मुहूर्तं धर्मात्मा ततो वाचवचः शुभम् पितो द्वियोजनेतात बहुमूलफलोदकः देशो महुभृगः श्रीमान् पञ्चवट्यभिविश्रुतः तत्र गत्वा श्रमपदम् कृत्वा सौमित्रिणा सह क्रमस्वत्वम् पितुर्वाक्यम् यथोक्तमनुपालयन् विदितो ह्येष मम सर्वस्तवा तपसश्च प्रभावेण स्नेहाद्दशरथस्य च हृदयस्थम् च तेच्छन्दो विज्ञातम् तपसा मया इह वासम् प्रतिज्ञाय मया सह तपो वने अतश्च त्वामहम् गच्छ पञ्चवटीमिति स हिरम्यो मैथिली तत्र रंस्यते स देश्लाघनीयश्च नातिदूरे च गोदावरिया समीपे मैथिली तत्र रंस्यते प्राज्यमूलफलैश्चैव नाना द्विजगणैर्युतः विविक्तश्च महाबाहो पुण्यो च भवानपि सदाचारः परिरक्षणे अपि चारत्र रामतापसान् पालयिष्यसि एतदालक्ष्यते वीरमधूकानाम् महावनम् उत्तरेणास्य गन्तव्यम् यग्रोधमपि गच्छत ततः स्थलमुपारुह्य पर्वतस्याविदूरतः ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः अगस्त्येनैव मुक्तस्तु रामः सौमित्रिणा सह सत्कृत्यामन्त्रयामास तमृशिम् सत्यवादिनम् तौ तु कृतपादाभिवन्दनौ माश्रमम् पञ्चभटीम् जग्मतुः सह सीतया गृहीत चापौतु नराधिपात्मजौ विषक्ततूणी समरेष्वकातरौ यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः समाहितौ इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये अरण्यकाण्डे त्रयोदशः